मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं तर्टिफैव् कामासुरः शान्तिवर्णनं श्रीगणेशाय नमः आदिशक्तिरुवाच ततःकामासुरो दैत्यायर्जगामद्विरदाननं जगादभयसंयुक्तो वचनम् हितकारकम् कामासुर उवाच ब्रह्मत्वं देव विकटप्राज्ञदेवसाहाय्यकृत्कथं सुरासुरमयं तद्वै कथमेकगुणाश्रितं विकटस्त्वं कथं वेदे कीदृशं ब्रह्म तस्य तु जन्मादिहीनभावश्चेत् कथं देहप्रधारकः वद सर्वं विशेषेण त्वां ज्ञास्यामि यथार्थतः तथा ते शरणं नाथा गमिष्यामि न संशयः विकट उवाच मायानाविधा दैत्यसा खेलधि मया भेदान् कृत्वा तदाधारान् मयूरेशं वदन्ति मां मायाशब्दं मयूराख्यं वदन्ते तत्वदर्शिनः तस्या स्वामिनमेवं मां मयूरेशं विलोकया नानाभेदयुतं ब्रह्मा सद्रूपं कथ्यदे बुधैः उत्पत्तिस्थिति तत्रा तत्रामृदमयं ब्रह्म सदा भेदविवर्जितं तदेव विकटं तस्मात् सत्यं जानीहि मां परं सदा खड्डमये दैत्यपुत्र ब्रह्मणि वर्धते सृष्टिस्थिति लयत् त्वं च साक्षिरूपं वदस्व मां चतुर्भिर्वर्जितं ब्रह्म चतुर्युक्तं महामदे तत्र नैव विजानीहि विकटे मृदः सर्वेषां जीवनं ब्रह्म तदेव विकटं मदम् तमंभस्विध मृत्युहनो भविष्य सिद्धिभ्राक प्रोक्ता बुद्धिर्भ्राधरा मदा तयो स्वामी गणेश विचारय हृदय स्थित चित्त दैत्य विधत्य भ्राति पंच था भ्रान्तियुक्तं महच्चित्तं त्यक्त्वा चिन्तामणिं भजा सर्वेषां चित्तगोहं तु मत्प्राप्त्यर्थं महामदे देहधारी स्वयं भुक्त्वा धक्तान् शान्तिं ददाम्यहम् सम्प्रज्ञादो नराकारो सम्प्रज्ञादात्मकं शिरः तयोर्योगे भवन् देवरी गजं विचारय अदोहं गजवक्त्रश्च दर्शनं मे सुयोगिनां स्वसंवेद्यं भवेन्ूनं तेन स्वानन्दवासकृत मायाक्रीडार्थमानन्दाद्रचितं विविधं पुरा स्वस्वधर्मयुतं विश्वं चित्ते तिष्ठामि नित्यदा देवासुरमयोगं तु न भिन्नं मे प्रवर्तते तथापि धर्मरक्षार्थं हन्मि सर्वान्नसंशयः स्वर्गेषु स्थापिता देवा नरा पृथ्व्यां मया तथा असुराविवरेष्वेवं त्रिविधं त्रिषु संस्थितं यदा लोभयुधा देवाः पादालस्तान् महासुरान् हन्तुं विष्णुमुखाक्रोधात् बभूवुश्चोत्सुकाबलात् तदा क्रोधयुदोऽहं तु दैत्यानां कृदि संस्थितः तपस्साथ्य संयुक्ता दान कौमे दानवान्घ्नकर्ता मराण वै दैत्याघ्नहक भवामी तेनांद्र जय युक्ता सदा असुरैर्हन्यमानाश्च देवेन्द्रा वनवासिनः बभूवु कामजानीहि संशयो न मदिच्छया यदा दैत्यामहादुष्टा मदयुक्ता बभूविरे कर्मनाशप्रभावेण देवानां मूलच्छेदकाः तदा देवासमर्थाश्च प्रजघ्नो दैत्यनायकान् दैत्यानां चिद्रकं सर्वं दर्शयामि कृधिस्थितः ब्रह्मादीनामवध्याश्चेद्यदा दैत्या भवन्ति च तदा कं भूत्वा हन्मि विशेषतः यदा संयुक्ता देवा दैत्या तदा बभूव हृद स्थिठा मसुरसदाया देंगण पीड़िद धर्मलोपका अतस्त्वां हन्तुमायादो देवपक्षधरो ह्यहम् हनिष्यामि महादुष्ट यदि मामवमन्यसे जीवितुं त्वं सुखीदेव वैरं त्यक्त्वा भवेच्छसि एवमुक्त्वा महादैत्यं विकटो विररामः महा। कामासुरप्रसन्नात्मा बभूवे भावि गौरवाद विचारमकरो चित्ते विकटोऽयं न संशयः सुरासुरमयः पूर्णो व्रजामि शरणं ततः कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं प्रणनामाथ हर्षयुक्तस्वभावतः प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपं तुष्ठाव भक्तिसंयुक्तो सुरकामो गजाननम् कामासुर उवाच नमस्ते विकटायैव गणेशाय परात्मने सर्वपूज्याय सर्वे देवासुरमयाय च अनन्दमाययायुक्तब्रह्मभूतस्वरूपिणे गजाननाय हैरम्भदेवेशाय नमो नमः शूर्पकर्णाय विघ्नानां चालकाय नमो नमः भक्तानां विघ्नहर्त्रे दे विनाशिने स्वानन्दवासिने तुभ्यं योगाकारस्वरूपिणे योगिभ्यः शान्तिदात्रेते योगेशाय नमो नमः अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे जेश्ट ज्येष्ठेभ्यः पददात्रेते ज्येष्ठराजाय वै नमः बुद्धि बुद्धि स्वरूपाय सिद्धिबुदिप्रदात्रे जिद्धिबु सिबुद्धिस्वय पद नमिनेमस्तुभ्यं चुर्बाधराय चंबोदराय ब्रह्मेश ब्रह्मण पद नम देवानां पालकायैव दैत्येभ्यो वरदायिने सर्वेषां समभावाय डुण्डिराजाय ते नमः विष्णुपुत्राय शम्भोश्च सकृते पुत्राय काश्यप वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः किं स्तौमि त्वां गणाधीश यत्र योगीन्द्रमुख्यकाः वेदादयो विशेषेण शान्तिम् प्राप्तास्वभावदः माया सुखं विशेषेण भ्रान्तितं सर्वजन्धवे त्यक्त्वा तल्लभ्य सेनाथ भग्र्या विकटया प्रभो अशान्तं मायया युक्तं चित्तं भ्रान्तियुदं सदा विकटे शान्तिमापन्नमतस्त्वं विकटो मदः एवं संस्तुवतस्तस्य भक्र्या रोमोद्गमो भवद कामासुरो नर्ताः सौ रुद्धकण्ठो महायशाः भक्रियुक्तं मनस्तस्य दृष्ट्वा तं वरं वरय कामत्वं दास्यामि मनसीप्सितं त्वां कन्तुं क्रोधयुक्तोऽहं समागदो न संशयः अधुना न हश्यामि शरणागतमादराद त्वया सर्वकामप्रदं भवेद शृणुते पठदे चैवान्दे स्वानन्दप्रदायकम् एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तं प्रणम्य हर्षः संयुक्तो जगादद्विरदाननं कामासुर उवाच प्रसन्नोसि यदा नाथ तदा देभकृत्तमां देहिस्थानादिकं देव भजामि तत्र संस्थितः मे देहि नित्यं नान्यद्याचे परं किञ्चिन्नश्वरं सर्वमञ्जसा अहो योगीन्द्रमुख्यानां दुर्लभं ते पदं प्रभो साक्षाद्दृष्टोऽसि विघ्नेश तेन ज्ञातं मयाधुना तस्य तद्वचनं श्रुत्वा विकटो भक्तवत्सलः उवाच महाभक्तं कामं गाणेश कामुकम् मदीया भक्तिरुग्रादे भविष्यदि महासुरगाणपत्यप्रियत्वं तु सदा योगपरायणः तिष्टस्ताने स्वके दैत्ययथा पूर्वं तथा भव मदीयस्मरणं नैव पूजनं यत्र कर्मणि आदौ तत्रा फलं भुङ्क्ष्व सुकर्मजं मदीयभक्तिसंयुक्तान् कुरु मत्कामसंयुतान् तथेधिगणपं नत्वा सुरक्कामो महायशः स्वस्थानं स जगामैव गणेशे भक्तिकामुपभ शान्तं दैत्यमुख्याश्च दृष्ट्वा महिषकादयः स्वस्वस्थानं व्ययु सर्वेत्यक्त्वा त्यक्त्वा कामासुरं किल ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरशान्तिवर्णनं नाम पंचय